आदित्यहृदयम् ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितं रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितं दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् उपागम्य ब्रवीद्राम अगस्त्यो भगवान् ऋषिः अगस्त्योवाचः राम राम महाबाहो शृणुगुह्यं सनातनं येन सर्वान्नरीन्वत्स समरे विजयिष्यसि आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनं जयावहं जपे नित्यम् अक्षयं परमं शुभं सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनं चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमं रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतं पूजयस्वतं विवस्वन्तं भास्करं भुवनेश्वरं सर्वदेवात्मकोशेश तेजस्वीरस्मि भावनः एष देवासुरगणान् लोकान् पातिगभस्थिभिः एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः महेन्द्रोधनदः कालो यमसोमोह्यपां पितरो वसहसाध्या ह्यस्विनो मरुतो मनुः वायुर्वह्निः प्रजाःप्राणा ऋतुकर्ताप्रभाकरः आदित्यसविता सूर्यः खगः पूषागभस्तिमान् सुवर्णसदृशोभानुः हिरण्यरेतादिवाकरः हरिदस्वसहस्राक्षिः सप्तसप्तिर्मरीचिमान् तिमिरोन्मधनः शम्भुः स्तष्टा मार्ताण्डकोऽंशुमान् हिरण्यगर्भशिशिरस्तपनो भास्करो रविः अग्निगर्भोदितेः पुत्र शङ्खः शिशिरनाशनः व्योमनाथस्तमो भेदी ऋग्यजुस्सामपारगः घनवृष्टिर्पां मित्रो विन्ध्यवीधिप्लवङ्गमः आतपीमण्डली मृत्युः पिङ्गळः सर्वतापनः रविर्विश्वमहातेजा रक्तसर्वभवोद्भवः नक्षत्रग्रहताराणा मधिपोविश्वभावनः तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते नमः पूर्वाय गिरये नमः ज्योतिर्गणानां पतये दिनाधिपतये नमः जयाय जया हर्यस्वाय नमो नमः नमो नमः सहस्रांशो आदित्याय नमो नमः नमः उग्राय वीराय सारङ्गाय नमो नमः नमः नम्ह पद्मप्रबोधाय मार्ताण्डाय नमो नमः ब्रह्मेशानाच्युतेशाय सूर्यादित्यवर्चसे भास्वते सर्वभक्षाय रौद्राय नमः तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने कृतघ्नघ्नाय देवाय ज्योतिषाम्पतये नमः तप्तचामिकराभाय वह्नये विश्वकर्मणे नमस्तमोऽभिनिघ्नाय रवये लोकसाक्षिणे नास इत्येष वैभूतं तथैव सृजति प्रभुः पायत्येष तपत्येष वर्षत्येष गभस्तिभिः एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणां वेदाश्चैव यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः येनमापत्सु कृत्येषु कान्तारेषु भयेषु च कीर्तयन् पुरुषः कश्चिन्नावसीदति राघवा पूजयस्त्वेनमेकाग्रो देवदेवं जगत्पतिं एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि एवमुक्त्वा तदागस्त्यो जगामचयधागतम् एतचृत्वा महातेजा नष्टशोकोऽभवत्तदा धारयामास सुप्रीतो राघवः प्रयतात्मवान् आदित्यं प्रेक्ष्य जप्त्वा तु परमं हर्षमवाप्तवान् त्रिराचिम्यशुचीर्भूत्वा धनुराधाय वीर्यवान् रावणं प्रेक्ष्य हृष्टात्मा जयार्धं समुपागतं सर्वयत्नेन महता वधे तस्य धृतोऽभवत् अधः रविरवदनिरीक्षरामं मुदितमनाः परमं प्रहृष्यमाणः निशचरपतिसंक्षेम विदित्वा सुरगणमध्यगतो वचस्त्वरेति इति आदित्यहृदयं सम्पूर्णम्